ेवत्याः किंसविदः प्रथवे बृहत्पति नाराधि राभायम् जय जत्याः सर्वदप्रदोड एव ब्रह्म नारायमुदीवत्याः प्रथमे बृहत्पतिनाराधि रावरि नागम् जय जमित्याहप्रदोढ एव ब्रह्मनावन्नागगम् रोहते आत्माल्यजगम् रोहति ैव राजः जैजा सुन्दे परमाला जै चादुन्दौ परम एव वाचावन्ध अशोभाष एव इन्द्राजवाजम् वदते संवादम् जापयते सौवादमजित्याः शेतवायतरिहेन्द्रः हस्तदशप्तम् जाथानामन्ते हस्तध्यक्त्वा भवति हस्तदश सप्तदशीयन्ते सप्तधप्रजापतिः प्रजापते हल्वाभि वा अल्वाः हायुस्ते हारित्ये एताभिरेवस्मै देवताञ्जनक्षे कश्चिवाहे वैदेवस्मैनख्ये आदिनवादम् सावका स्थानाम् गच्छते अस्याः स्वर्गो वै लोकः काष्ठाः स्वर्गमेव लोकयन्ते स्वर्गं वा एतै लोकयन्ते राजव लोकाः वै हे समाने लोकम् वा एतमुच्चयन्ते न आजिन्धावन्ते प्रश्नाम् कक्षाम् वा दश देवदेव माधवं मधुञ्जयं देहं परिकृपया वन्दे हेतसा ब्रह्मरूपहरि हेपदेयदेवमाहेभिद्युम् तथाधि हेमाबा गौरकेशः क्षीमजयो ताभिहस्तमेवदेहेगणे सङ्घाराण निर्वेना सङ्घाराणां निवारत्तम वैराष्ट्रपवति हे राम देवानां परमवन्नम देवैवाराः परं देवं स्वनां हे रामवन्न्ना ज्वलते सप्तदसुराः भवेत् सप्तदसुराः प्तरान्नानि ध्यक्तवरुध्ये अन्नस्यान्नश्च अन्नस्यान्नश्चवरुध्ये शब्दावरुद्धत्याध्ययन सर्वत्र अनवरुद्धत्यावरुध्ये औरुम्बरेण कुवे ओन्नवदुम्बः होश्च एवान्नाभ्यत्यावलुभ्ये एवञ्चरे अन्नस्यान्नभिञ्जरे अन्नस्यान्न पुरस्ता सत्यञ्चमभिरुञ्जरे पुरस्ताभ्यप्रदेशेन श्रीर्दनोऽभिरुञ्जने श्रीर्दोन्दमज आवस्त्रालयते अर्जयस्ता हेस्तवः चलञ्जने इन्द्रश्च त्वारिञ्जानेत्याह इन्द्रिय त्याह सम्भवे ब्रह्म एवेन अभिरुञ्जने स्वाग्रहागश्चावीजानि गच्छेभ्यौ हरन्ते अहमेव मन्त्रम् करोति स्वाग्रहागश्चय श्वाकमण्डमन्त्रम् करोति असौभैलादे अयच्छाभिष्टादवने वने अयरु प्रजापतिः प्रजापते धर्माध्यञ्जने अन्नम् वैवाजः अन्नमेलावध्ये श्रीवित्तवदेपवने शन्यामे विष्णः अनुमस्तिः कैश्चय नवदनवकरे क्षरे वदनचमपजे हंसने वेणक्छे लेखमजये मृगमकेत्याः खयावेतु खयाना लेवेते सुज्ञये मृगविच्छाः वनपदे गवेत्तु अनपदे रामे रेतेन सुज्ञये मृगविच्छाः हेरावेनोसिजान धवने सुवनवदनदिरे समानो भवतु भुवनमेवेतेन गच्छति हस्विषदम् इत्याः हवामेवेण गच्छतिषदम् इत्याः केषामेवेतेनकाले अपि बहिदेवताः गच्छति हे ग्रहाणामित्याह पञ्चजनानामेवेतेन समुद्रयसमित्याः सूर्यस्यमित्याह कृत्वा च इन्द्रोष्टमुहत्वा अधुरान्पराभाव्य सोमाभात्यागच्छत् हेद्यागच्छन् गच्छासन्ता हे भुनद हे भ्रुवन्मनामहे अपः पुनज्वास्यामः अस्मभ्यमेव There is also written his pouch box, There is also a need for, There is also a need for, There is also a need for Así is a need for transition, So one another can either walk least outside, Some people see the prayers, Like where they have now These people sleep in chilling, इन्द्रियमेव सामवेशमारुन्धे हेणी एतद्वये ब्राह्मणम् पुरामालत्रे जले अभ्याः के एवं वैल हरिद्विलीलायामश्चव्यवाहनाय स्वधान् े षट् सम्पद्यन्ते षद्वाहः हस्ति अनुष्याः पितराहुजेज्यहोजे कण्डितधारे षट्सम्पद्यन्ते हेनारा नमः ननक्कुरेवै नायोः किदन्हः भूतो नयनान श्रेण् पिनादि आनपिनाले हर्षा किदोनो नत्सिबुले जगदाक्षिन्नं परिभवये कैलिबिहि विनिदन्हः रुनिदहाति प्रियमेव इतोलोखे किदन्हः आनयव् पिनादे परलान् वसले पिनालीनाः िना वदन्ते प्राणस्याय जन्यमस्याय प्रमायमस्याय जन्मप्राक्षेयाय हादित्या युलापन्दितनायः नमस्कारो हि विरहानाम् समावस्थितवसाय नमोकिल कृष्णाय नमो वकिलीवाय नमो वक्ल अथाये नमो वक्लो मञ्जरेः नमो वकिलभोगाय हितलो नमो हे एतस्य लोके स्थानोके महान्तेन हे एतस्य लोके स्था े एस्मि लोके अहम् तेषाम् पुरिष्ठभूया समित्याः पुरिष्ठस्त्वमानानाम् भवति च एवम् विद्वान् चतुर्भ्यः करोजि हेनैव लुश्यानाम् निज्ञः देवानाम् मात्याः शैलवा एतत्सु लोके चे यभ्यः करोति हये सरप्रमेच्छामलैजे ैवत्याहे प्रजापुदेव श्च हान् पवित्रे गृह अपरन्य सद्ग्रहायस्तम् देवागत्तर्पयांशन् जहोजे स्वमेनैवर्पयते एता एव गच्छन्ति एतद्राविधा एतान्यासन् तेदानध्याकृतमगच्छन् स एताविधामया इव प्राणान् च पश्यन् गच्छन् चालमयानि भवन्ते यावदेव हमेवदयम् वाक्यमभिषयन्मया वदन्ते प्रायज्ञा वाक्यानि न्न सत्याः पशोलस्थाने भवदे चिलमान इमान् रामिन्द्रमुख्यस्थाल्यस्थाने भवजे इन्द्रियमेव जयन् हृदा जयस्था भवता भव किन् कर्मस्तावनम् उत्तमक्षिणो भागुन्ताभिः स्वरामङ्गविभक्षेपे ृहन्तम् गच्छन्नस्मादधाक्षणः सेतावदृष्टाल आहुताः कीरालके स्वावधष्टालेतले श्रुतामति क्ष्मणे सोम एः मानयन् शिरस्व्या शरीन्द्राणि रक्षते अहन्तरस्य मनसा शिलेन स्वमगुण्यामि स्मृते अध्यजनाम् अहम् देवाना मुलमत्यानाम् समाध्यायम् यत् सम्भुवं समेति च एतम् यस्य देववर्णः यासः यश्च देववर्णप्रस्तु आह्वासः सन्ध एतेनावयते यश्च देववर्णयन्धासः सन्दशेतेनावयते स्वभवा एतश्च लाज्यमागत्य भवन्ते शेवानागुम् समानः समाह प्रयच्छन्ते अयम् पुरस्थानख्यैश्व चित्राय वरुणाय चेतस्य निवेद्याय श्रीय माच्यन्दे निन्द्रायकम् वशे भागम् मित्राय वरुणायख्याः कृपात्मानम् प्रयीक्षाय विधेतक्षानि यस्याज्ञाय अवत्यमेवास्मिन् आत्मानम् प्रतिमुञ्चते ऋक्त्वाददाय क्षिणामेकजेम् अयो गृहे पयो मत्स्यमयो सन्वये पयदेवात्मृहेभत्य उभयैवकन्दले यदपि उच्चारु तदेव शालक्ये दृष्टो लव्यम् अधान्याम् दुभ्रामहो लव्यम् रे.. ृक्षञ्जाय हत्रैवके तथ येन ग्रन्थाय स एवया वृत्त्यै अथ्याम् दुग्धाम् अनाना एकस्य यज्ञश्चाम् अनाथावले कृषः हि लग् शब्दम् वत्यावत्ययेद्राय वशो नवजो अनाज्ञमध्ये रामः त्याभ्यत्पादायः प्रकुण्डयन्द्रन्त सप्तमेव तस्याः मनीयत्यम् कामेत्याः मदीयम् यस्याम् लोचने कल्पेन हिरण्यम् अवध्य पुरस्तात्सरेण अभाग्यम् प्रसार्थिभाम् हिरण्यम् पुरस्तात्सर्वे ज्योति हिरण्यम् ज्योतिनम् पक्षत्सर्वे शरव्यम् भवति होत्रम् प्रणये रामरेण राम् मनोरे सर्वा देवता देवता यत्राक्यश्च गच्छाज्ञाभिम् प्रवचने पुनस्तमश्चे हेतान्त्यश्च योजे एतस्य यज्ञं गन् याज्ञा एतस्याः जानयते शिवाधि याज्ञमाज्यम् वरस्ता असाध्यम् पुरस्ता कृत्वा रामफला राम् फलोभिः देवताभिरुद्धते एतस्मै यस्या पुनस्तस्य लक्षरोगे मित्रस्य यज्ञं गृह्णात्मनम् वैन्य यस्याः वनीयेन यदाह वनीयमनस्वारिवत्कस्यम् क्रियते रुद्रोताम् धातुकस्याय आहेन उत्साह्य राजवत्यम् मन्त्रेण हिरप्तरञ्जन्ये अग्निः भारभ्य नैव स्वगायत्रया चायत्या देवेभ्य ह्यम् महदत् प्रजा सर्वेण राजवत्यम् मन्त्रे राजवत्यम् मान् वाहिलाच्च फलोपनिष्णन्ते याये सविन्धामित्याहैवत्सवो रक्षामाधयेत्याह एतस्यैवान् आहेन त्यावाच पूर्वे भागेन यत्सवनस्यादिच्यते यच्छयत्वरेण कुर्वन्ति ैमासारे ौरवेशम् हरिक्षं यत् तादृशे हरिक्तस्य शान्ते कुर्वन्ति तस्यैवादिक्तस्य कामेनादरित्यरे सामेन समर्थयन्ते सौरवेशकम् साम्भजे तेनैव मार्ध्यमनान् नयन्ते सप्तशतमः च नैवयन्ते भोजश्च मुसमनान् नयन्ते भोतानुकं से अभ्यकम् समादधाति यस्य तृतीय दृक्षेन उपवेण्येन अशिरात्रम् गेण यस्यापिक्षय दरिच्यते तद्वेषत्माश्रयन्ति प्रसवः वास्मैपदोन्द्राशान्ति देवानाम् पुत्रम् पुच्चैवेमध्ययन्तेयन्ते भोगालंसे मध्ये यज्ञकम् समाजधाजे कौले जनतायाविन्द्रः हे कम् वा एताविन्द्रमृतगुम् सुरतः एतविः अन्यतरम् वा एकैषुम् सन्धरान् निर्बक्षते क्षवेत् आमेव मञ्जरे श्च दिवस्तपृथिव्याश्च अविभक्त्वार्ज हविभक्ता ब्रह्मसामम्भवने वर्गस्य लोकस्याभिरुच्यै वर्णस्य लोकस्याभिरुच्यै विश्वजवने विश्व भो यागुण्डित्याहो यद्यक्षान्ते सर्वे सन्मसवीशाय त्वापवेशाय चेत्याः सन्दानम् देशम् देशमुपवेशः खन्दोभिरेवाचन्दायत्र भवति इष्टिलामध्वर्यः इष्ठेक्षानाम् प्रीयते अन्य त्या संणे सर्वदा इत्युक्समिति होरानाम् श्यामेण तत् भवेदम् लोकया कलयते असौ देवेन असौ जैवाच लोकाः जेभ्यदेवेन शस्तु नपद्यन्ते सप्तावः सुदेवेन भुवते अपि <Sanye>, नामस्यायुदेव अथो आत्मानमेव विदहलोजन्ते अतोपन्नम् कृत्वा असो देश्यमपक्षामन्ते शस्यलोको विलो भाष्टम् बहु लोकमानभेन अष्टावे लोपानामीभे तेन एव नो वा दामिसे औत् पिनिषोनि यत् कय्यते तापा पशून्के च रक्खामन्ते आरतिना एवेन लिप्यते तेन एव कलानां च साइने श्रवणे उद्गानेत तत्सन्मन्ते रे विसञ्जादे धावलयमत्तेदनले एव अलीन उद्गाने आगये न मपये चञ्ञे नउ तालेदे दायगोन चालेदे चञ्ञे दायगोन चालेदे हतये न कोनल मन्ते हतवावो जिलये चत्रहलुगेने संवच्छंगे पदेन इच्छंगे चपाधरो उजले कछारने बोलयारे पुरमगने बोलयारे यदाज्ञा प्रियप्रभो तत्समघः प्रेयेणनन्वाशमध्यये धारयन्तकिं मनसि भगवत्तो वा न हि योनिन सोरेवैनि सोरेदत्तेशः आश्रये धारयन्तजनये यत्त्वामो वदत्येव पुरा नognनं ते धारितश्च्यास प्रियतया मेदाशोधनादे यकुना रञ्ञते यन्ते तच्चाम्प्रायश्चित्ते तच्चेयः क्षफलानि सफला गुणान्य अशो गुणानि अशः यथा राजा गुणानि न विना ीणायामस्वामस्या एकान्दान् दक्षिणान् दद्याके वायस्मि harva swa devana bhaktane tapakya asma namo bhagavane tat satya gunane ida va sarve guruh namastya gittam karave devana bhagavata satavya sarva asya harva swa devana bhaktare tapakya asma एहि भगवानां सुवचनां अरित्रे अभिषेकयगे चपोना दवना दनां कंतमादे दनां आनन सुवोधिया कंदविस्वानां चावरे लखमित्रवज अरित्रे नपुना रिमा सुत्रेण देवये चिरे अहमे सत्पाश्ववन्दनां यते वरिष्ट मस्तिहे अज्ञेवदनं करां समहले नपिनेह वाद्जा अंदेव जरिषा, अवित्रयन दवेन जा, शिरम्रंभ पुनिम्हे, वेष्वदेवे पुनखे ये प्यागादे, इस्टी पख्वे सदमोवेद प्रिष्वा, तकावदंजस्त रमाज्जेशु, अजेंचिक्त्या वपतकोरगीना, वेष्वानर अधरस्विधर् ेन विजयेन ब्रह्मणा पावने ये ज्योति ये चम्भवत्तमं कपे नोपदये सेवदकेलोधरो दकम् पावने सप्तये ये सुरदायये पदे ये चम्भवत्तः कामभे स्वरुपिणं पावने कृसंतमं वल्लभगसं आवम कामान त्वदें गुनाह ये ये सेवये समासुना पुनम् समानत्यम् पवित्रम् हैमयम् ओदम्भवीमहे इन्द्रस्वेष्यमानाय प्रदेः देवा पश्यन्धमतम् घृतस्य पूर्णगृत्पथाम् अनुपोदगच्छन्तमजोः हेणार्धमासोर्जमवारुन्धरा तस्मादर्थमासे देवा विद्यन्ते हितो पश्यञ्जमतम् घृतस्य पूर्णगृत्त्वथाम् अनुपोदगच्छन्तमज्वः है नस्योर्जमवारुन्धरा मातुर्ध्य क्रियते मनुष्याः पश्यन् च महम् मृतस्य पूर्णज्ञथाम् समुपोदरिच्छन्तमजोः येन द्वये मोर्जमवान्धरा तस्माद्विरम्भ मनुष्येभ्यमुपः क्रियते प्रातश्च सायम् च पठमापश्यन् च महन्धस्य पूर्णज्ञप्रभाम् समुपोदरिच्छन्दमजोः रुन्धराङ्गे वायम् अनुरावक्षोधाम् अभोः च देवा अमञ्जन्त हमीवा इदमभोन् यद्वयज्ञ एतानि चातुर्मात्यापन् साहि भवन्तः शत्यमेव देवागोर्जमवारुन्धन कान्तैनावरुन्धतुभ्यः करोति श्यामेव विहलगोर्जमवारुन्ध शान्तैना वरुन्ध यदा वद न गृह्मेव मनुष्यावोर्जमवारुञ्चनावरुन्ध यद्दक्षिणा ददा चे कामेव पशववोज्यमवारुं सदान्त यच्चादुर्भात्ययवेदते कामेवोज्यमवारुंसदा काञ्चेनावरुन्ध भवत्यात्मनः फलाः स्यभ्राजौ य भवति शिलाजो वा ये धा विक्रान्तिः ते चा दुर्मास्यामि ऐश्वरे मे नास्त्यम् लोके तस्य चे वर्णप्रसादे अन्तरिक्षे साकेशे नमस्मिन् लोके के सावेतत् सर्वम् भवति एवम् विद्वा गच्छादुर्मास्यैर्वादसंवत्सरः आदित्य परिवर्त्सः सन्दमानिवत्सरः स्वायुरनुवत्सलः न यदले अग्निमेवदत्सम्वत्सरमाप्नोति तस्माद्वैष्वेव न यजमानः संवत्फलेनाय स्वस्ति मार्गाश्चासाधीप्रभागै आदित्यमेवदत्परिवर्तनमाप्नोति रेणागत् स्वस्ति मासाः सैत्याशात्सरमाप्नोति तत्माना साकमेधैर्गमानः यथावत्सरेणा कृतया साधीता च देवादेव अथ माश्चनुवत्सरश्चेना उच्छिष्यनुवत्फलमानः पनोलीय नगिलमानः हनुमत्फलेणे एतस्वैकम् वत्फलमाप्नोति च एवम् विद्वा विच्छा धर्मे ये देवास्तमयजन्त यजन्त लोकमजयन् यस्मिन्नग्निः यद्वैवे त्वजते एतमेव लोकम् जयते यस्मिन्नग्निः अग्निरेव साहिध्यमुपैः किराजे अथ संरस्य गृहति माप्नोति यदा संवत्फलस्य गृहति माप्नोति अससहस्रयातिनमाप्नोति यदा सहस्रयाजिनमाप्नोति असहजमेधिनमाप्नोति यदा मेधिनमाप्नोति असार्ग्यद्भवति यदाग्यर्भवति असगरोद्भवति एता वैदैश्वदेवस्य मात्राः एतद्वा एतैलामम् असौ पमा उत्तरा निष्प्रेययागुङ् भवन्ति यद्विश्रयदेवाश्रमयदन्त सद्वैवेष्वदेवस्य वैश्वरे असादित्यम् वरणप्रसादेन यथा स एतम् योगव जयते यत्किन्नादित्यः यद्वर्णप्रसादय यजते एकमेव लोकम् जयते यस्मिन्नादित्यः आदित्यैकैवानम् वरणप्रभात एव यजतप्रभाताम् वरणप्रभातत्वम् आसतो मौराजाखण्डाकम् च साकमेधैव यजत सम्मजयते यस्मै यत्साकमेधे यजते शेषमेव लोकम् जयते यत् यज्ञश्चन्द्रमाविभाते चन्द्रमत एव सायुध्यमुपयते स्वभोदे चन्द्रमाः शेषहत्वे साक्षात् क्षोमम् रक्षयते च एवम् विद्वान् साकमेधेयते यत्सोपश्चला जाचन्दागौ समे सन्त तत्साकमेधानागुम् साकमेधत्तम् असत्तवः पितरः प्रजापदम् पितरम् विदयज्ञेना यजन्त अ एतम् लोकवजयन् यस्मिन् दसवः यत्कृत यज्ञेन विदये एतमेव लोकम् जयते यस्मिन् दसवः ऋतोनामेव सायेज्यमुखयजे यत तवः पितरः प्रजापदम् पितरम् विदयज्ञेन यजन्त सत्वितयज्ञस्य कृतयज्ञत्वम् अथोष एवम् बकेरहितम् तत् महे ततो वेदाः प्रवदन्ता एवम् निद्रागत्यम् बकेरहि तथय प्रजयापरमेतम् लोकमजयते शस्मिन् वायोः यच्छुना दैलेय शेतमेव लोकम् जयते यस्मिन् वायोः वायोरेव दाध्यमपैते ब्रह्मपादिना वदन्ते प्रशासम् श्रीवसन्दाः प्रमीयते वसन्त भवते यदि ग्रेष्मे ग्रीष्मः यदि वर्षा तु वर्षाः यदि चरति चरति जापतिः प्रजापदर्वादेशः प्रजावध ओ अग्ने कृत्तिकाः शुक्रम् भरस्ता ज्योतिरवस्ताराय प्रजापते रोहि आपः परस्तावस्तारायत्सयन् प्रकाभिषदानी परस्ताश पृच्छश्च भावो हृदयः परस्ता दिभ्यावस्थाय अधिके पुनर्वतोपरस्ता माध्यमवस्थाय पृहत्पदशिष्यः ज्यम्पदः परस्तार जयमानावस्थाय तन्तायाः अभ्यागच्छम्ब परस्तारभ्यागच्छम्बोऽवस्थायणाम्बाः पृथम् नः परस्तादभ्रगुंशोऽवत्ताज हरिम् नः को हे भल्गुणी राजा परस्तादभोवस्ता भगत्योत्तरेतरभक्तः प्रथमः परस्तारवस्ताय हिंसश्चित्रा प्रथमम् परस्ता सत्यमवस्ताय वायोर्नत्या भगतिः परस्ता यद्धिरवस्थाय इन्द्राज्ञा चुलाय परस्ताः कृषमाणावस्थाय मित्रस्यानुलाः अध्यारोह परस्तारभ्यारोहमवस्थाय इन्द्ररोहिणी कृता प्रति अवस्थाय लवजे प्रतिभञ्जन्तः परस्थावस्थाय अपानम् गोर्वाधाः पञ्च परस्तात्पनिभिरवस्थाय विष्णेनाम् देवानामुत्तराः अभिरेदमवस्थाय वृष्टाश्रोणा वृक्षमाणाः परस्तात्पन्तावस्थाय अधो नागश्रविष्ठाः भूतम् परस्तार्भोतिरवस्थाय किन्दस्य रदभिरये विश्वविदा भरताक्षि नमस्ता हस्तवारस्ता जय स्वाम नमस्कार हरे दु हव हरि परस्ता रविमस्ता देव नमस्ता अश्विनैरु अपकरितम् तत् परस्ताद्राज कोऽवादभवनक्षत्रम् तद्भक्कुरुभ्यम् यदा वेशो य उदये हत नक्षत्रैते ततो योगच्छ पुण्याः एव करो केदौ ह्युम् उदायञ्चकारो क्षत्रियम् प्रजापतिम् वेद उभयोरेण लोकयोः विदोः हस्तकेवास्य हस्सः चित्राशिरः नित्याहृदयम् घोरोच प्रतिष्ठानो राधाः केशवेन एवम् उभयोरेणम् लोभम् हत्यश्चामुष्मज्ञश्च याम् रामयम् प्रियाश्चादित्याम् दद्यात् प्रियैव भवते नयतु बृहदा गच्छते अभिचिन्नामनक्षत्रम् उभयष्टादशाहम् हवस्ताक्रवणाये बालाष्ट न्नक्षत्रयभ्यजयन् यदभ्यन् तदभिजलोऽलिप्तम् त्रिङ्कानपदेयम् च लेखिले समेतस्मिन्नक्षत्रे नापदेयमेव नक्षत्रम् नक्षत्र उपादिष्ठन्तभवन् च रेव उपादिष्ठन्त म् प्रावन् तस्मादेवत्याम् पशूनाम् भवन्ते सरिणम् वायिम् पराजे सत्तारकानाम् तारकत्वम् स्वयिभेजे अनुभुम् सकम् नक्षते सन्नक्षत्राणामक्षत्रत्वम् ते ले नक्षत्राणि एवम् वेदा वृष्टेन भवति का इमारिमानिभव्याश्चित्राणि कानि नक्षत्राणि तस्मादश्रेनामद्यश्चित्रे नाम शिरन्यैवेद यथा वादे कुरुते आसेवदेवनक्षत्राणि दे, वा अन्यानि शमनक्षत्राण्यन्यानि पृथिका प्रथमम् विशाखेव उत्तमम् आदिदेवनक्षत्राणि हनुराधाः प्रथमम् अपसरणेनुत्तमम् कालिगमनक्षत्राणि कालिरमनक्षत्राणि कालदक्षिणेन वे कार्यगमनक्षत्राणि काल्युत्तरेण हलिवैरामदालमो राधाः जयष्णे रामवधिष्णे सज्जयशब्दे मूलरे रामदक्षालेपि कम्बूलदर्शने जन्नासहंसा तत् श्रोणदे शिरश्रोणोणामोदय तच्छाः यच्छदमभिरज्यन् सक्षदभिरजन् क्रोच्छपले गुरु यच्छन्त हेवत्यामनवन्तैजो रैत अवसये स्वभावहन् सा निवानिगमनक्षत्राणि यान्येवनक्षत्राणि तेषु गुरुगत्ताले स्यात् पुण्याः एव करुष्रादः प्रभवः करुणश्च सायमा भवनः शत्रुदेशेन राजस्तना राजेनकम् सङ्गमात् स्वतो देवाज्ञत्वाञ्जयमिवतः तत्तदार्थवैर्यम् निर्मार्गः शत्रस्य सङ्गमः तत्पुण्यम् च दक्षः समः समागम् च शत्रुदेशेन काकेनम् मध्यञ्जिलादे सरो देवा उच्यञ्जनमिवतः सप्तदात्तवेर्यर्मार्गः सदैवैर्मध्यञ्जनः तत्पद्यन्तः तस्मात् तेखेक्ष्णम् तपदे यत्त्वदेकेन मध्यञ्जिलादेकेनपराञ्छ देवाश्वदशनमिमतः सप्तदात्तवेर्यर्भारतः भवत्यापराञ्छः सत्पुण्यम् ते जश्रः सत्त्वादराह्मार्या सगमिच्छमानाश्चरन्ते षट्त्वेकेन बलागेन वंसायान् सतो देवादिदाण्यविमदः सप्तदात्तवेर्यम् निर्मार्गः वरुणस्य सायम् सत्पुण्यम् ते यश्रः सत्पादे ब्राह्मणो मायनक्षत्राणाम् कमानस्या षप्पञ्चपुण्याणि नक्षत्राणि चत्वारि यत् वेदानि आनन्द यच्च बलस्तान्नक्षत्रा न्यच्चावत्सादय पान्यकादधान् ब्राह्मणः कैवम् विद्वान् संवत्फलम् व्रतम् कले संवत्फलेनैवास्यम् व्रदम् वक्तम् भवदे नक्षत्राणि चत्वारि े ऐन्दवः आदिष्टः ष एवम् विद्वान् संवत्सरम् वदम् चलते ब्रह्मरेणैवाच्च वृतम् युक्तम् भवते ब्रह्मवादिनो वदन्ते सतिपात्राणि यज्ञम् वहन्ते त्रयोदशति ब्रूजाय द्रोयाज त्रयद्रोयायत्ता आत्मनः प्राणापानाभ्या निर्मोपालस्वन्तो निर्मिलिता प्राणानुपागौ सुवर्णम् पायालैरिन्दवायवम् कक्षक्रतुभ्याणाम् मये श्रावरणम् श्रोत्रादाश्यम् कक्षुरशुक्रामुखिनोः आत्मन आग्रहणम् अङ्गेरभ्यमुख्यम् आयुर्वच्छुभम् प्रतिष्ठाया ऋतपात्रे यज्ञम् पावतम् प्रजापतिन्येता स नितो नाध्यैरसमप्रेय सान् प्रजापतिरपि भावा न पश्यते तान्यपदे यज्ञमप्यपदे वायाय ऋतमे मनमे ऋतम् नाक्षे ऋकिञ्चना ऋते समुद्राहिता ऋतैर्भोमिता अद्यक्षित्वेन शोषिताः तपः ग्रान्धमुक्सिनाः शिरस्तपस्यातम् वैश्वानस्य तेन सा श्रुतेनास्य निवर्धये सत्येन परिवर्तये तपसास्यानुवर्तये शिवेणास्यापवर्तये षड्मैनास्याभिवर्तये हृदन्दसत्यम् तद्भृदण्क्षगेयम् शेन कृभ्यासम् ह्यद्धर्मः पर्यवर्तयते अन्द्राणाम् प्रतिज्ञाविदः अन्ययाचनोचः पर्मः इन्दुरबलध्यक्षयभित्थः अर्जत्रिग्ण शोषितः समाग्राहन्तमुष्टिः शिरः समस्याम् तैष्वानवस्तवर्षे तत्तेन परिवर्तये अवसास्यानुवर्तये शिवेन अस्योपवर्तये षड्मेनास्याभिवर्तये अदम् तत्सत्यम् तत्सङ्गच्छ गेयम् तेन च ते गेयम् तेन राभ्यासम् यो अस्या सभाक्रान्तमुष्टिहाः शिरस्तपस्यादितम् हे विश्वासस्य प्रेदासावर्तये प्रत्ययेन परिवर्तयेनुवर्तये शिवेणहास्योपवर्तये षड्मेणास्याभिवर्तये सद्वन्धसत्यम् सद्वदन्तक्षकेयम् क्षेदषकेयम् तेन अध्यासम् के कम्बादुले प्रजाभ्यः हते अमृतम् मस्याभ्यः प्रशामः प्रजायते तस्य मत्यामृतम् येन मासा अर्धमासाः प्रथमपरिवत्फलाः येन चेते प्रजापते शीता संयमक्रयन् तेन अहमख्यब्रह्मणा हिमक्रयामि जीवते अभ्यक्तिग्नेन सोविषाः सपहाप्रानन्दमुष्टिराः शिरः समस्याहितम् ते श्वानस्य तेजसा कृतेनात्यवर्तये सत्येन परिवर्तये तपसा हस्यानुवर्तये शिवेनास्यापवर्तये षड्मेनाभिवर्तये सदृतम् यत्सत्यम् तदृतम् दशेयम् तेन च के गन्तेन राध्यासम् ते भावी ते तु राोध्वम् वृक्षेभ्यमनापश्यन् ते केशानग्रेव अधस्मश्रोणे असोपवक्षौ असत्यैवानञ्जायन् अनाभवन् शस्यैवम् भवन्ति अवाङ्गे असौपरेव भवे असैवा वोध्वम् वृक्षेभ्य पश्यन् सोपवक्षावग्रेव र्गल्लोकमायन् यस्यैवम् वपन्दे भवत्यात्ममानः अथोर्गल् लोकमेति अथैतम् पुनम् वक्त्रे समपश्यते तस्पश्रोहम् नग्रेव असोपक्षौ असकेषामे ततो पत्रागाय तप्रजयावशुधे यस्यैवम् वपन्दे सप्रजयावसुधैर्मिधनैर्जायते सेवासुरा सञ्जन् शैव्यायच्छन्दा ताञ्चैलापन्मास्ये दैलाभिप्रायञ्जल क्रैस्तदेवेन चतुला मातु व्यञ्जलेन्द्रराजानः ताम् शेषण्षावक्षयम् दवलिता वर्णप्रकाशे शतरा मासो व्यञ्जलवर्णराजानः ताम् छेरन्निषावक्षयम् धिता हारमेशे चतुरा माताकोमराजानः ताम् शेरण्यक्षयम् जवलिता रामे रामरञ्जना सर्वदेवापरासुरा ब्रह्माख्यैर्गते सामात्रेषाकम् वत्तरमुपदेवा प्रञ्चयताम् सातव्यत्या कृषा चादुर्यः परा भवति लोहिता निवर्तयते यद्वा इमामज्जरागे निवर्तयति एतदेवै नागु लोकम् कृत्वा निवर्तयति सा स्वभोजी भवन् चेति प्रजालय श्र एवम् यद्वान्वृतागते निवर्तयते एतदेव लोकम् कृत्वा निवर्तयते सतदश्वस्वभोजान् भवन् यति श्रीव जायते श्रेयाचल्यानि वर्तयत श्री श्रेणवे देवानाम् वृद्धानि त्रे छन्दागुण्ठे त्रेषः श्रद्धामेव लभ्येभ्य एषु लोकेषु कृत्वाश्च याज्ञाः सेवेभ्यः चेत चतुर्भ्यभाषेभ्येण परोक्षमेव लभ्यवेभ्य आत्मनो मध्यम् दृष्टाय सेवानाम् वा ए एवम् विद्वाञ्जितमर्तकरिता देवता देवाप्ये कासऋत प्रजा आयुधप्राणगम् सन्तनो प्राणादपानगम् सन्तनो अपानाद्यानगम् सन्तनो ज्ञानाच्चक्षुःसन्तनो चक्षुष्रन्तनो श्रव्राह्मणसन्तनो मनसोलायगु वाचा आत्मानकुम् सन्तनो आत्मनः प्रथिदेवम् सन्तनो पृथुर्या अन्तरिक्षकुम् सन्तनो अन्तरिक्षार्थिवकुम्सन्तनो त्रिभः सुवत्सन्तनो इन्द्रोदहेद अथभिः प्रचान्यप्रष्कुतः शानननवैर्नव इच्छन्नश्वस्य इत्थादो दहतेनः संयत्नः विलक्षते आधुर्ये इव किं शृणो रहस्रकृशनेऽपि च उग्रमुद्राभिलोचेः श्रीन्दम् राजयामते महे वृत्तान्तरे अवशालेन्द्रदामने घृतः कोशक्षस्तमले घृतः युग्ले श्लोके च सौम्यः किलावणसंहृदः तव लोणपच्युतः पवक्षरुग्रवस्त्रतः प्रजापनिरीन्द्रम् ज्येष्ठम् पुत्रमन्यदत्तः हे जय नीयागुण् सत्रालोहवलैकायाधमः हे दयम् दैर्वाहनन्द्यते हैवा प्रजापतिमोदने राजकस्य विच्छम इन्द्रमम् विच्छायते संयज्ञम् कृतजरन्वये संयज्ञम् कृतुन्दन् कमिच्छरन्वये भिरन्वृन्दन् तजस्ते नामित्यम् येष्टयो हलये नाम सा इष्टते परवक्षेण परवक्षप्रियाणि बहिदेवाः तत्पा येतमाः ज्ञाने स्वमेकादकमादन्त्ये क्षणे अन्य भवन् तदृत्यादन्वता साम् तत्प्रेय्याजान्तौ पालयन् ते तदन्त्रयुक्त्वा तद्भ्रवन् तद भद्रत्या सा चैवम् दौपालयन् चेतदन्तमेवकृतोद्रवन् सिद्धमभिहन् स भद्रुत्या सा विधानाम् दौपालयन् चेतदन्तमेवकृतोद्रवन् तस्मादेवता एतदन्तानिष्ठयस्तम् तिष्ठन् एवयो हि देवानुकुर्वदा इति देवानुकुर्वता इत्युवैव मनुष्याः कैरवाहुषो यद्वा इदमुच्चैर् यज्ञेन चराम तन्नवसराः पात्मानविन्दन्ते उपादुषो पतदाचरामः तथा अनवसराः पात्मानानुपादुरुषोपतमदेनोच्या श्रेण ध्यानमाधार्या चित्रपराधेराहुतेन उद्धा श्रेण उग्रम्ब अपारथेन् त्रैतम्ब अपारथे विस्वाहेके अतले कालिपा उग्रम्वशः शैलश्चेण अत्यञ्चत्रैजम्वशः केतगौ हवादश्च तद्धालितम् पारमानम् जैवाथवानः पित्र एवमुच्च कृमेण कालमाधार्य पित्रफलाहुलेन भूत्वा कृमेण भदनञ्ज भवेत् उग्रम्बचो आपावधीम् क्वेदम्बो अपावधिपा हेपि अश्रेणादिपासेन वा उग्रम्वचः केन शलेन हस्त्यम् च क्लेशम् वचः केन मेमदश्च तावदम्बरात्मानैमिदमानोपहते ते विनीयै मावक्पुमानभन्ता अन्ध एवद्रैवावक्त्यम् परात्मानम् वक्तिमदभिरे केनाभिनीयेव धात्र्या एव लब्ध्यैवाहवक्तिम् बात्मानम् मृत्युमहलभ्यरे तत्मानभिनेयैवाहप्रजुमावधेन अन्ध एव लभ्यमानवावृत्तिम् बात्मानम् चादृते तेनाभिनेयैव प्रचले स्थात्रिया एव लभ्यमानावृत्तिम् बात्मानम् चादृशीरेण विदेवच्च प्रजुमालभ्यरे नः अस्य च भागुन्त अस्य देवलेन भागुंसन्देन मानस्तग्रस्कुरुताः पञ्चदेवताः अर्गे निद्रावरुणौ पञ्चपञ्चैव येजमानः पम्भागुन्तः एतदेवलपञ्चतात्मानम् वर्णपाठान्मुञ्चते एतदायेन वर्णत्वाय अयम् सप्तभिस्तन् सत्त्वास्यन्ते स यशयोपधमे व्योहाधीरन् कुमारात्मैकायतानरैरे सत्त्वादेव मानवद्र्यः प्राज्यलब्धो यन्तेन एषमानधमुद्रः यच्चात्मानः एकौ देवकपोढम् यन्तः ह्यन्तः स यदत्सोढम् हस्मात् सन्त्यम् खनन्ति स सुवर्णरचनाभ्याः कुशेभ्याम् परिभेदादेशयन् रत्तादित्यः स हैस्तु वर्णरचनाभ्याः कुशेभ्याम् परिहेद हरम् ददाभिप्रास्तु हरम् ददान्तरन्न श्रावे त्रिभुत्वमात्राः हम् पञ्चदशेनाभिप्रास्तु हम् पञ्चदशेनाददता अहम् पञ्चदशेनाभ्य श्रावे पञ्चदशस्य मात्रा हरिम् सप्तदशेनाभिप्रास्तु हरिसप्तदशेनाददता हम् सप्तदशेनाभ्य ह्यावजे सप्तदशस्य मात्राः सत्य सप्तदशेन क्रियमाणस्य ते ब्रह्मणोपद अमेकविभुंशेनाभिस्तु मदा अमेकविभुंशेनादता अमेकविभुंशेनाहरन्ते ह्यामस्यैकविभुशस्य मात्राः जयत्ताः तुभैवमानमादजते सन्तु ह्यामजे अज्ञर्वये त्वमयस्यालोक्ये तावदे सर्वे नन्तरेण्ठायुज्यगुण्ठागमयन्ति अजयत्पञ्चदशेनैव सम्पञ्चदशेनैव पञ्चदशस्य मात्राः पञ्चदशः चे पञ्चदश्यामः के जलयः पञ्चदश्यामः कोषदयः देवे हन्तरे महासांसायुज्यमंसलावकतारम् गमयन्ते अशयत्सप्तदशेन सप्तदशमानमादय एवं सप्तदश नैव हरन्ते सावके सप्तदशप्रमात्राः प्रजापगर्वे सप्तदशः प्रजापजयदेवे हन्तल ंसायुज्यगम् फल अगतारम् गमयन्ते हशगरे कविपुंशे हस्तवदय एकविपुंशे वैमदमानमाचरते समेकविपुंशे वैमहरन्ते स्यामत्यैकविपुंशस्य मात्राः हसौमादित्यैकविपुंशः आदित्यस्यैवन्तंसायुजयम् फल अगतारम् गमयन्ते च पुष्योः जन हे अभोदाश अभवदाम् अह एव सुबन्ना भवते रजता रात्रिः खजलादित्येव तत् सुबन्नानाम् कुशेव न समेति अटगिलसमेति एतामेव द्रताम् कुशेव न कम्ते सादवैका याधवः विलवत्तम् गुप्तमुदा सप्त भवते सत्पात्वन्नाशा जयदेशत्वारि स्तः तस्माचतु चतुमश्चमत्वम् प्रदाहुः रता नित्योते मासप्तधरे कविवंशः हेता यथावता नित्योतेः स्व सप्त क्रियमाणौध्यले कमस्ति नौदानाभिरभिलजनाम् घोदाकहंशेन सारदेवर्णोपयक्त्या सदानुभवशिद्धान् होक्रहंशः सारत्यैपरिपापः चित्रावर्णयोप्रशक्त्याः हागम् हरिकामिन्दमेव एताख्येन देव ब्रूयात्सपादिरेणसवनेऽभिरज्यन् पुरुषा एकादशकपालेन माध्यञ्जने समने विश्वदेवाद्वादशकपालेन त्रिवीरसमने एतश्चाकपालान् द्वादशवने कुर्यात् एकादशपालान् माध्यञ्जने समने द्वादशकपालागत्रजैतवने विराजक्षक्रियेण एकादशकबालाभक्तादर्थवने कुर्या एकादशकपालान्नाठ्यन्ति मेभवने एकादशकबालागत्रजैयतमने मत्वांसनाम् विश्वेदाम् देवानाम् प्रचेगतवनम् अजकस्पादेके राकम् हविषानिवेशन्ते एतायनम् देवतायि ब्रूयात् एकेन हविक्तत्वादिरेभयो हमे चन्दस्तश्रयन् शतश्रयन् सश्रायन्ते यस्यश्रायन्ति यम् शतपालयन् ीयक्षबाणवन्तीयत्वम् सस्यावाचगैर्वादाेन्तात्वेन समृभते द्वाभ्यामक्षराणाभ्याम्भ्यामेव स्यान् दत्तप्रचे द्वादधरोर्णवास्यः परधाक्षगाः द्वारधामावास्याः एता वादेव यस्यान् दत्तक्षरिके गाणि सन्नागक्षमिच्छन्त्याणि हेनान्य मन्यन्ता साध्रगे दृढके मा मे भोक्त्वा माम् वसभ्यस्वयते शतभ्य अक्षरेण नक्षभ्य हरेन्नाथ भवने हतभ्य अक्षरे पञ्चस्य हरेणक्षरिच्यता सस्यामेतानि सत्वार्यक्षराण्यवक्षिद्या दधानि एव भूत्वा हरे वसमस्वयताम् हस्ताभिरक्षरे प्रत्यब्दहतेन्नातु भवने हस्ताभिरक्षरे प्रत्यब्दहते अक्षरिच्यता तस्यामेतान्यष्टावक्षराण्यवक्षत्या झलिरेव भोस्वान् झगेव हसमाश्रयणाम् द्वादशविक्षरे भवक्षरे जयते तु जगेमच्छा तस्यामेता विद्वादधा अक्षराणाम् न वक्ष्याधरात् ऋषि झलिरेव भोस्ताम् झेव हसमश्रयणाम् सहाब्दवे प्रजातेः सन्दालस्वा मे भवता यस्माभिरहेतमत्रा नेति तस्य कायस्वे जकदेशपक्षानुभवनाम् पुष्टिक्षक्तिश्चक्रष्टो अनुष्टुप्स्य पञ्चर्यो रहस्यैव समास्थाय हेतमत्वा नमृतमचलन हेतकम् हवेशन्दोनसमास्थाय एतमध्वलते च वेङ्क एतत्सञ्चरते च जनम् विद्वान् स्वमेणे श्रुतेन एवम् वेदानुमत्यै पुरोणाशमत्साङ्गायावशीयन्ते अन्नैनसमेकपालम् इयम् वा अनुमते यम् नगरते हैवेणेण प्रदते आत्मा शैलैर् निरवदे शेषकपालो भवति शेषशैलैर्वेनुभवम् अत्सर्यम् चैनम् स्याज हे स्वाहु यन् इत्याह आहुच्छेन गुरुशमयते हा किमाच्छत्यत्सर्गम् नैनमानः शेकोल्मुचेन यन्ते सद्यनिर्मित्य भागदेयम् हिमान्ते निर्दृत्य एतस्मिन् निर्विम् एतस्य निरीक्षाः भोजने त्याह हनुहरम् मञ्चये हनुपच्छाध्याम् निरवलगते पृष्ठम् वासत्कृच्छदोषम् एतध्येन निवृत्त्यै रूपम् रूपेण नैव निर्मिन् निरवलयते हस्तवे क्षमायन्ते स्वानवरेकम् चकारे त्रिपुनपत्ये च भवति आहुसेवनम् अत्यन्तोगालिकमुपावर्तन्ते आहुदयेन प्रचलति निर्मानुमते यमे वाज्यमनुमन्यते इमामेव कुर्ये आदिते समानुविता परोदक्षिणः परवधिराज्यम् समर्ध्ये ज्ञा वैष्टवमेकादशगवादन्ये कव्यस्तद्वा देवताः शिष्टविज्ञः देवताः तैलयज्ञम् चावन्ध्योभिः छद्वैः हेणाः ज्ञेयः छद्वामनः जैवेष्टवस्तमध्ये कब्गे सौमेकादशपालन्यतमदे कगे पवमाभ्याम् वा इन्द्रवृत्तमहन्दिरे मेकाजगमानम् दक्षिणापद्यतामेकादशमपश्यते अन्यदेवन्द्रियम् चालाम् राक्षमेकादशवानम् निर्पते ेवलामलेन आज्ञैमस्ताकमालैन्य हैन्द्रन्न भवति हज्ञवैयज्ञमुखम् यज्ञमुखलैलध्यम् पुरस्ता से हैलीन्द्रन्धेन्द्रेतावन्धे क्षिणः चद्वये जयनाः चतुमः काले प्रजाघोषधे रामभूता नामाच्चः पराफलम् न आग्ने न्याय हिरमालस्यापराभावायोषधे स्वाजिमयोः आनन्ददय सा वेदमयेन्दुधाजम् त्वाद जगवान निरनाताम् यदयेनुत्ये साधमानाभजे साधु समाचारः संरक्षः संरक्षणे विलात्मान्नवन्ध्य यैष्वदेव स्वजे हैष्वेवम् वा अन्नम् अन्नदेवात्मै ये कुरै प्रथमजवत्सवदक्षिणा अपलध्ये सौम्यभ्यस्याकरम् निर्भवजे हरिक्तवत्य राजाः हरिक्तवत्यवात्मै ये गोदक्षिणाध्ये हरस्वत्ये सलम् जगवदे हरस्वम् एवावन्ध्यौका गोदक्षिणावन्ध्ये जयवाय जेध्याः देवता हस्ता वेदानि हरे मुख्य भवन्ते Ashthaksharagaya spray. Balet ur nonebкие. TayMEI lipsaya muhaangyaная. B大丈夫anei menghundi. PaishwarEDAore Seninle Patronamayaprom Righumaja HDAH. Satまたta dayumta. Thoottyila kaелейata. Amnaaprasana yamiti. Amnaaprasanaya medida. प्रजापतये शोचप्रजामिच्छमाणः प्रजापुरक्षिञ्जना प्रजामिच्छमाणौ सा स्वज्ञमप्यवनेयते सरस्वीलाचमोरा बोधयते एते सम्ब्रमरक्ष प्रयुज्यन्ते हे देवा पुस्तिपदयः संवर्तये प्रजापते संवत्सरेणैवास्मैः प्रजात्राजनयते आ प्रजाता मरुतोभ्यन्ने हस्तान विनत्थाय क्षते हम् प्रजापतिमारुषम् प्रत्यपालमपश्यते भवते सप्तकनादे मरुतः कल्पयते त्वप्रजापतिरसोजने प्रजातस्ता पथितुः प्रथमपरास्तु तस्य सुष्मान्तम्भोतम् निरवर्तता तद्भिलभरते कथ तद पोषयत् तत्राजायता आन्तस्य वा एतद्द्रोषम् यथा निक्षाः यद्युग्भरति र एव तद्धिजमानः तद पोषयति हैश्वदेव्यामिक्षा भवते हैश्वदेव्यापे प्रजाः प्रजा एव आत्मने स्वजनयते आजिनमानयते ैव प्रजा प्रजायन्न आमग्रयुना पुराञ्जय हजार जय शे जय शेस्पे के पंचमि हजार जय श्रेसुरा सौम्य नाच्छा प्रदूषा पुत्रः खले निपुरन् पुर्भो जराय खले निपुरान् एधा वैरिक्सन्नभ्यम् भवति केनैव लोकाः एकस्यैव लोकेन प्रतिगच्छति एकथा पुनः सन्नद्धम् भवति केचन वात्ययम् लोकः अस्मिन्नेव तेन लोकेन प्रतिपच्छति असुव भवन्ति अथमचारमेव प्रत्यक्षिणा समुद्धये गृह्णासि पशम एवावरुन्धे पञ्चगृहे सम्भवते त्वाम् सिपशवः सम्भवते बहु स्वाहिभः समन्धे कज्ञम् मन्थन्ते अज्ञमुखाले प्रजावयत्वजा असृजनाम् मन्थन्ते अज्ञमुखायवजा यजमानसे हवप्रयाजा इत्यन्ते हवानौ याजाः लालाभागौ लालाज्यभागौ श्रीपुंसखम् पद्यन्ते श्रीपुंसदक्षणाविराज अन्नम् विराजेवान्नाद्यमानोपायकपालः शैराज्यम् शेखकपालाज्यमानयते हजमानदेवयते हजमानोपालः शाज्यम् हृदेवनयति यजमान एव पशु यत्समर्जयति हृदम्पमानय अल्पायनम् पशवो भुञ्जन्तौपतिष्ठेन महवयेणम् पशवो भुञ्जन्तौपतिष्ठेन स्यात् महवयवेणम् पशवो भुञ्जन्तौपतिष्ठन्ते यजमानोदायपालः ेवककपालः सुमद्वो लोकानीयःपालः वनीये भवति जमानमेव स्वर्गालमानमो विद्यते सुजास्य लोकस्य समस्ये चमपि जयेते चक्षिणालोकम् षट् सत्यज साकुञ्जेत्यः चतुरञ्जे पुनश्च लोकमपि जयते प्रचक्षितो सद्यः क्षणः जावाः यज्ञः यजमानः यजमानम् प्रजाः सत्पाः पद्यः भाजिना विजते सङ्ख्यभाजसौर्यः एवः तानेव त्यजते हसवल्वारो सन्नागुम् हि तानि एव त्यजते शिक्षादेवायन्द्रस्य हरिश्व हरिदय आसानम् वाजिनम् सायम् प्रयच्छयञ्जभोजेराध्याह्नेकम् प्रयच्छते वाचिनमानयते प्रजाले परिभिः शो वालिनम् क्षयन्ते अथवा एव नो देवायनम् ह्यजमान एव पशुवम् प्रतिष्ठापयन्ते प्रजापयस्तभो प्रजा असजता भालेन मत्य मन्य हा हस्मासपाः आ आवर्णभूत्वा प्रजावर्णेनाग्राहे प्रजावणीताः प्रजापतिम् नापरिक्षमानाः प्रजापत प्रजावनत्रभाषा मृत्युम् च प्रजानामग्राहायुण्य भवत्यः हा विदीयाम् दक्षिणेतत्प्रजानाम् दक्षिणम् लावम् प्रासारयतीनाम् दक्षिणतोलय विमुच्च्छन्ते प्रजानाम् दक्षिणम् लावम् प्रसारयते तत्सन्मयाः यज्ञादितस्य उपमात्रान्ने भवतः अस्मात्रंसौ ज्ञामुत्तरवेदिनत्तरवे असौवागुन्धे परिषोन्तरित्ये हेतद्वारापञ्च हरेन्द्राज्ञानौ वाणाम् हरिन्द्राज्ञे हरे राज्ञो भवते क्षाः ने केचन भवतः एव प्रजावरणपाठान्मुञ्चके भवत्वा भ्यामपि गच्छते प्रजापतिमन्नाथ्यम् नमतायनमारुन्धा शक्ताश्व पन्नानि भवन्ते अन्नाद्यच्चाध्ये सौम्यादिकै करीरामे सौम्या शृज्वालश्चिञ्चालयते शकरीराणि भवन्ते सौम्ये वा रणशाते एकमतिरिच्यमाना एव प्रजावरणपाशान्मुञ्चते उत्तरस्यामन्यानि हे पुरमे असोकोचे वा र्ये सत्परि प्रख्याता करोति हस्मात् सत्पादीरायन् करोगे सत्यं हतो हत एवम् कनयते शालकम् सन्धन्नम् वर्णपाकेण ज्ञायते तथा चेदानयते हस्तदेवेनाहम् षट्पत्ने पुन्यामनुभ्रूयाय ैत्याः वर्णमै शतमानदेवत्योयः धादुषदेवत्यो दक्षिणः शाभवनीय तुविराय शतमाणम् वर्णमादय न कक्षिणे अज्ञाम् च भवति साधुर्यवर्णपाठेण ग्राहयते सुवर्णे शीर्षन्त सत्यम् इच्छन् च भवति सत्यमेव वर्णपाठा निर्मुच्यते अर्चन् कर्म कर्मकित्याः सेवाय हानुवस्त्रेण परमविभेकम् वारे तद्यज्ञस्य यद्यते पुस्तकश्च निःते परमविभेकेनैव अपोमपुषामयते हसेव वर्णमुचते परमपाशादेव अप्रदेक्षमायन्ते अरुण्शा हेलोजे महेदेवायं हे लोहेवाद्रमुराशन स्विद्रवीण स्वेयमेतो तां तेनेता हताशसे ेन पाकशेलेन प्रीतः शुद्धान्यवाभवन् गमते पुरोडाकमट्टाकपालन्यग्धवती हिदेवाने गमन् तद्येन भागशेलेन प्रीणाति साक्षादे हेतुः ग्रन्थः हे देवा मरुद्ध्यकान्तमनेभ्यष्टरम् निरवहन् तान् यावासमन् यन्मरुध्यन्तरम् निर्गमते शामापिभ्यमेव लघुमान्यातु्यान् सन्तमते मध्यन्दिने निर्गमते तर्हि सन्तमते हे देवाश्वादयिनस्सन्तः सर्वासाम् दुग्धेभ्यवन् आदि एवाज्योपवशामास्य वा एकम् तस्य वा स्वपरिदे तस्यागुदश्च नाश्नन् हिरे वादस्यास्मन्ते ब्रुवन् तस्मादिष मे ब्रवन् मे पराकुलाः शक्ते मरुध्ये विभ्य भवत्यात्मना भवति शन्ते नित्यस्य मागत्रा वा एतत्क्रियणेभवति तथा विषयमे भवते अत्र राजा चक्षुषे समर्थयते भवति प्रच स्याश्च विद्यमेज्ञात्यध्येत अतिवेदं वजे तस्यामेध्ये भवति हास्त्रिज्ञाश्यध्यय ते जला ग्रमेलाभवन् भ्यञ्जना अनुपत्साहित्वा भवन्ति अभ्यञ्जते अनुपत्सान्तेनोति हे चाकमे इन्द्रायः निकर्वाचयन्कासम् निगध्यापावत्सवेत् लालसमर्चे भवति ऋषभमाह्वयते हस्मभ्यमे ध्यक्षेरन्मेत्ये साधेनारम्भे एतत् नाम् अभिवजे उद्धारम् वा एतहरः सत्यम् हत्वा सन्न्यासदेवतास्पति हेन्द्रोद्भवते सन्न्यासप्रजास्पदे हे विश्वकर्मण एवम् देवतेन कर्म हे विश्वदेवेण प्रजापति प्रजा सा वर्णप्रभाषे वर्णपाशाञ्चरे सा गमे प्रत्यस्थापयते निरवादयत प्रजा एव तस्य मानस्य लिणान् मुञ्चते आकमेधे प्रतिष्ठादयति निरवदिशत इति वर्धम् लोकम् गमयते यक्षिणप्राचीनादेशे रक्षिणाम् प्रवद गनवदे उत्तवदे मोघयेन सवेदे भयेन वाष्ट विदवच्छेज्ञन्त अपोरेव नक्षिमाज्ये विस्तरेय तेर गनवदे तोमारे समये भवराजकं तस्य बलान् निजये वदे समर सर्वदे धर्माच्छ्रमानै समर सर्वदे रत्त्रे नागै त्रज्जो वैरथो धाः सासारै सलोवै सलोह मासानेव नासे यस्मिन् वाचौ पुनः प्रमीयते भवन्वाचे भवते भवना भवन्ति भवत्य स्वाचमासाले स्वाचार अर्धमासानेव ना्यायुद्धे भवते कर्तो वनम् सन्मनुष्याणाम् उपर्यध्वेवानाम् अर्धत्तिरणाम् अर्धोपमन्त्रि अर्ध्वपितनाम् च गजोपमन्थरे हे पाशुपितनाम् दक्षिणोपमंसरे दक्षिणातनाम् अनारभ्योपमन्त्रे अर्भ्यपि गच्छमुत्सन्ति उपदेवाश्च वितरस्य भवति लोकाम् तद्देवानाम् निकम् धरा सन्मनुष्याणाम् यत्समूलम् अर्पितनाम् दक्षिणास्त्रे कक्षिणावृद्धिविदनाम् षट् परिजयते श्रीदेवादितो लोके वितलः तारेवक्त्रे गादे षप्नः परिजयते षट्सम्पद्यन्ते षट्वा ऋतमः शोणे वक्त्रे नादे षट् परिदागन्धीयात् कुमारिको निजमानः न्न गन्भीराय हनायपदस्याप्रदायिपे हानायनः क्षत्रेम् परिहेन् परिदध्याय सुयजमानम् परिगन्भीराय हन्न परिदभ्याय रक्षामुण्डयज्ञमुः सौ परिहे परिदृधाते रक्षसापत्ये अथवा नृत्योदेव यजमानमुत्सजते ेन हवेकुताहरे एकैकमनो नाञ्जिताहरञ्जे एकैकदे हेकामन्त्रम् च प्रमीयते कशिप कशुपज्ञाय उपवर्षनमुपरिहन्याय हाञ्जनमाञ्जन्याय अभ्यञ्जनमभ्यञ्जन्याय यथाभागमेव अग्ने देवः एताम् त्रिगङ्गाः त्रिशेवानाम् आधारावायते यद्यवशन्तरित्ये कामरम् वृणीते न भवतारम् कृम् वृणेताभोतारम् भवताः तस्मान्न यजमानस्य भवतु प्रजा एव मृत्योजे हाश्चे ऋषयवत्याः सन्ध्यत्वा लभ्यते सञ्चक्षेता देवताः ते पुनोनुभात्ये श्याच्या देवतावशक्ताः सा एव सन्तदपद्यते सोनाकुम् सन्तः पूर्णयापनोनुभाष्ययाः अनयः लोकेन कृत अन्धयवेदान् पूर्णयापनोनुभाष्यनयति स्वधा मयम् सम्यजते सोम सोमं च समन्तजते संवर्तनो वे संवर्तनमेव तज्जगे श्रेणो ये वै यद् जगे श्रेण हे वाय्लामः हेष्पात्ता नैव द्यजगे अग्निवाहने हे अवग्निः ेव्या <Sanskrit> <Sanskrit> निष्क्रामन्ते आपणी उपगच्छन्ते आपमिवन्ते अग्रिमेव निरोदयन्ते अन्तम् वा एते प्राणा गच्छन्ति वातिष्ठन्ते सन्तरम् सा वयमित्याः सामावेतदन्त साधते योजान्यदेहयेत्याः सानमेव पुनरयुक्ता अक्षन्ननिमदन्त येति बालिहवत्यमपरिष्ठन्ते अक्षन्ननिमदन्ता सत्त्वपरिष्ठामः इति आवेदनाः श्रीमदन्तविकलस्त्वज्ञा इत्यभिप्रपद्यन्ते श्रीमदन्तविकलोसत्त्वाभिप्रपज्यामः इति वा वेदनाः अवपरिभञ्जले महाजयस्य प्रजाले बलिः प्रजाले एवमुच्चलते सरप्रजागाय रावणो यादौ षट्सम्पद्यन्ते छा सौभे अवप्रेणादित्यङ्गाल्यन्ते यत् तत्सङ्गाधीता षट्सङ्घादयुः पदानिपात् तत्पान्नान्वाद्याजयन्ते प्रत्येको दीभाया प्रतिकोढमेकपालान्यपदे सा प्रजाुद्राण्यवदश हे कपचरिक्तम् चरिष्यमाणादेव प्रजाुद्रान् निरवदर्श एकपालाः भवन्ति एकदैवरुद्रम् निरवदर्ज मुखेनैवयामेवरवदते हन्तरो आहुक्ते नातिष्ठता असौ वचुन्य ृश्यात् आकृत्रिमते नाक्यान् सत्पथे च भवते एकीनाम् पद्येषु नाम अज्ञवत्येव च भवते पध्यमेन पद्येन च भवते बुद्ध्येषु हन्तनेनैव भवतव्यम् हन्तन एव सत्यम् निरवले रुद्रभागस्तहस्रम्बि जयत्याः शरद्वाश्राम्बि कात्राः अयवा एनश्चेत् एवम् सहतमय चेत् मयित्राः शामन्त एवमः हैलैकलोके हवाहम्बरुद्रमणि महेत्याः आश्रमेतामासाः महेत्याः मृत्योर्मः सन्ते मोचयत्रान्ते यथा जनयते पदम् कलव्रभागृत्या अप्रजे क्षमायन्ते अपप्रके रुद्धान्तरिहृत्ये समायते चेन्ते आदित्यन्तरम् पुनरेभजे वादिभिः हत्रामेव प्रतिष्ठन्ति ओतद्रा ब्राह्मणान्येव पञ्च हरे गुरुषे हरेन्द्राय सुनादेवादेव वायन्द्रासुनादीयः नैवात्मान् नम आम् पयो भवते काजमे वृक्षेय प्रदापयता तदेव चैवत्यम् प्रदापयते सौर्यय भवते सूर्येण वाहमस्मिता तदेव शैवत्यम् नियच्छते त्वाशम्यक्षिलाभमध्यये शैवाञ्जराज्यमन् प्रयानभिमयते सौरात्रयेन त यथा महात्मानम् विकलक्ष्य इति सत्य आत्मा ह्यभूता हजन्तपेयम् शुद्धम् सर्वम् चेयम् सर्वम् अहमितेन्द्रवेयताम् हरेन्द्रः हरेन्द्रः हरेन्द्रेयस्य ततो वेदवाख्यन्तान्द्रविरुच्चैक्षिणायणार्जोः क्षयणौत्रेण शयणेन्द्रे समीकान्ता शयणमारुणेभुद्धये प्रजापदयज्ञमृताक्षमम् रक्षागत्य विभागम् सन् यथा प्रजापचनात्मनो देवतायनीता विद्वारक्षानु ह्यनुददा चित्तम् चावेयम् ज्योति विद्ध एव न ज्यमानमरक्षागुह्य प्रवदते अमोघगोरक्षोरक्ष इत्याहेवोस्ताहेत्याहार्यो साध्येयम् करोगे प्रत्यवारेण सौ दक्षिणापद्य इन्द्रम् भुरायन्त्यामेवान भवते महत्ये के कोल्मुखेन जन्ते तद्ध रक्षताम् एतावैरक्षसान् जहन्ते स्वजैर्णेषु प्रधेवाः केतद्वै रक्षसामायतनम् स्वजैवायतने रक्षाकम् जहन्ते कर्ममयेन च भोजे ब्रह्मैवर्णः ब्रह्मणेव रक्षाकम् जहन्ते देवश्च भवत्याः सजसत्रे हरक्षाज्याः कक्षदाकृत्य चक्रमायम् जगमानय एव प्रजाता वाचम् प्रसादे आत्मा वै सम एकादशकबाल्ये हरिन्द्रा वय सम एकादशकपालम् हे समञ्जकबालम् येजम् वा अग्निः ये च प्रजा एव प्रजाता प्रतिष्ठापयते तत्त्वाना जैनः कलः हेन हेन्द्रः ह्यत्वा मनः केन वै समर्थमध्ये सङ्केतोमि यमेकादश बालन्य यमेकादशबालम् चलम् स्वमहेरः अद्य प्रजानाम् प्रजयिता शुद्धानाय प्रजाम् प्रजनयते शुद्धामिन्द्र प्रयच्छते स्वप्रदक्षिणा समध्ये स्वमहापौष्टम् जगमये हैन्द्रापौष्टञ्चलम् स्वमहवेरेनाम् प्रजनयिता क्रुद्धानामिन्द्रहिता प्रयच्छति औषा हस्यामेव गच्छति श्यामो दक्षिणासमध्यरेभ्यमुपगच्छति ्राह्मणम् पथ चन्दनम् चरणजे परुणपाष्टञ्च दक्षिणा ेवदया सप्तमध्यै सत्सनाम् एतानि भगे कोषि भवन्ति हेत एव राष्ट्रस्य प्रदातारः हेतय वा धातारः हे राष्ट्रस्य प्रदातारः चातारः तैरात्रैराष्ट्रम् प्रगच्छन्ति राष्ट्रमेव भवते सप्तमासस्य दुर्बलेनैव आरक्षिनस्य भव यथाय ब्रह्मणाभ्यते अथवा ब्रह्मण्यक्षत्रमण्डारम्भयते नासमध्यये स्यामेवक्षिणा समध्ये फलायम् राधाचार्ये गृहे दक्षिणा समुद्धये नैरुतम् जलम् परिवृत्ये कृष्णाम् मात्मानमेव कृष्णाघोषादक्षिणापध्ये चयना नैवाषभ्ये चन्द्रिणापध्ये मानन्तौदक्षिणापमध्ये अन्नम् अन्नमेवावन्ध्य तस्य चक्षिणासमध्ये सा वित्रम् दालिकबालम् शत्रुभ्यै दक्षिणासमध्ये आश्विनन्द्रिकबालम् सङ्गरेतुभ्ये अस्मिन् भ्यजो आभ्यामेवाजम् करोमि दक्षिणासमध्ये कोच्चञ्चस्य गृहे अन्नम् ये गोषा अन्नमेवावलम्भे शावालक्ष्णमध्ये रजावम् चमक्षापस्य गृहे अन्तत एवलक्ष्णमध्ये स्वाददेशान्ते स्वादसमासाः संवत्सराः संवत्सरे नैवास्मे राष्ट्रमवलम्भ्य राष्ट्रमेव भवति चिह्नः प्रतिनिर्भय सत्य आदिषोवरुन्धेन प्रतिनिर्गवजे इन्द्रायुत्राण्ये भवतिकाधिकपालम् इन्द्रायागम्भो च आदिषमेकावरुन्ध अयम् नवराजा भोत्राम् मध्यादित्याः आदिषमेकैतामाशा हैद्रापाठ प्रत्यम्भवजे श्वेतायै शैरमस्ताय बुद्धये भारतप्रत्ययिष्टमपि सुधाये ब्रह्मदेवास्मै क्षत्रम् च ध्वे सुधाय अथो ब्रह्मण नैव क्षत्रम् प्रतिष्ठापयते भारतय नै शम्भ्यते अथो ब्रह्म नैव क्षत्रमयते श्रियम् प्रता श्रियम् त्रिनम् वयम् तु न युद्धा अनभिदस्याभिरुच्य तस्मात्राज्ञामरण्यभिजनम् लक्ष्म विजयै